ण्डे चतुर्थप्रश्नः प्रारम्भः और... न्य सन्मसुरा रक्षागो शिविषाचास्तेऽन्यतस्तेषान् देवानाभत यदल्पं लोहितमकुर्वन्तरात्रे विरसभ्यन्तान् शुद्धान् मुखानभिव्यो चित्ते देवाभितुर्यो वै प्रियते रक्षागो शिवा रक्षाकस्य पा मन्द्रयन्दतान्यप्रोपरं वृणामै देवा सुरानजयन्ते सुरान् जित्वा रक्षाकस्य पानुदन्तरक्षाकस्य नृदमघर्ते समुद्रम् देवान्दुर्यन्ते देवाज्ञापनादन्दते नये प्लवे पुरोडा सुपृष्टागपालन् निरवये विधवते नये प्रतीगवतेवदे निरव पुनया ान्येव पुरस्तात्रक्षाकस्य सन्धानतेन प्राणदं दि दग्नये वि बाधवते यान्येवाभितो रक्षाकस्य सन्धानतेन प्रये प्रदीकते यान्येव सात्रेनापानदं दिलो देवान्स्याधमानये दयेष्ट्याययेणये प्रवदे प्रौढाशमष्टाकपादन्निर्मवे दग्नयेऽपि बाधवते यदग्नये प्रतीगवते यदग्नये प्लवते न प्लवति एवास्माच्छेयान् भ्रातु यत्कन्देन प्रणुदते यदग्नये विबाधवते य एवैनेन सदृम् गन्देन विबादते यदग्नये प्रतीगवते य एवस्मात् पाबीयान् स्कन्देनापनदते प्रश्रेयागम् सम्भ्रातृ यन्नदतेति सदृशङ्ग्रामम् पाबीयानाप्नोति य एवम् विद्वानैतये देवासुरा संयत्तासन्दे देवा अप्रुवनयो न वीर्यावत्तमस्तमनुसुमारभामः इति तैन्द्रमप्रभन्द्वन्देन वीर्यावत्तमो जत्वामनुसुमारभामः इति सोऽप्रवीत्य स्वमयिमास्तनव वीर्यावतेस्ताप्रणीताधासुरा न विभविष्यते धिता विहेत्य क्रुवन्नियमनो होमगीं विमृतेमिन्द्रियावतीत्य प्रहीत्य प्रोडाशमेकादश गलन् निरव पन्निन्द्राय वै त्तमासुरेप्लयन्दयो स्पर्धमानयेतेष्ट्यायदेतेन्द्रायागो अमृजे पुरोडाशमेकादशकपादुलत्वेदिन्द्राय वै मृधायेन्द्रायेन्द्रिया वदे गुणं हसा वा एषु यस्माच्छेयान् भ्रातृर्यो वेदिन्द्राया गुणृचे नृपभत्य गो हस एव तेन मुच्यते मृता यस्मात्समाने न्यश्रेया मृता प्राद्रुर्यो इन्द्राय वै मृधाय मृध एव तेनापर चेदिन्द्रायेन्द्रिया वै इन्द्रियमेव तेनात्मन्धत्ये त्रयस्त्रिगुंशत्कपारम्भोडाशून्यर्ववति त्रयस्त्रिवंशद्वै देवतास्ता एव यजमान आत्मन्न समारम्भयते भू त्वेता वा एषा विजितिर्नामेष्टिर्य एवं विद्वानेतेष्ट्यायतोत्तमामेव विजि चन्द्रा द्रुव्येण विजयते संयत्ता सन्देशामित इदम् भविष्यन्तिकर्मणि देवादाभीत्यसुरासानान्यतरा कश्चनोपावर्ततते देवा एतच्चमस्य देवान्दामनामासि विश्वम यत्सर्वमसर्वायुरभिभो रजमावदेवासुरामो जोबलमिन्द्रियं वीर्यं प्रजां पशो न भृञ्जदयज्ञायत्र्यभ्यातिष्ठत्तस्मादेताङ्गायत्रैतिष्ठिमाहसंवत्सरो वै गायत्रीसंवत्सरो वैतरभक्क्रम्यातिष्ठत्य देवतया देवासुरामो जोबलमिन्द्रियं वीर्यं प्रजां पशो न भृञ्जद तस्मादेता गोसंवर्गैरेष्ठिमाद्रूयमां ष्टागमासन्नो देवलमिन्द्रियम् वीर्युम् प्रजाम् देव अस्मा स्माजिरा हन्ता यत्रावसन्तं प्रातिष्ठत्तै प्रजापतिं प्रजा उपावर्तन्तय प्रजाकामस्यात्तस्माय प्राजावृत्यङ्गा मृतञ्जलं निर्भवेत् प्रजापतिमेव स्वेन स्मी प्रजां व्रजनेत् प्रजापतिपशो न सुजते स्मा पराञ्चायन्तेऽत्रावसन्त कर्मसुष्टघोषा चान्मै काम प्रवेत् पूषा नशव उपावत्स्यन्तीति मां प्रतिष्ठेति सोमा प्रवेन्ष्ठाने प्रवेत्त प्रातिष्ठत्त प्रजापतिं पशव उपावर्तन्तयः पशुकामः स्यात् तस्मा एत सोमा भूषणा वेव स्वेन भागधे येनोपधा वदितास्मिन् गृहीन्दो वृष्ट्यादिशस्वनः इन्द्रो धत्त्वा गृहेषु नः सविता यः सहस्रियः स न गृहेशुरारीमीशानजगदस्पतिः स न पूर्णेन ृषासन देवाः मृदम् दीर्घ्यश्रि यन्तायुस्तो भिन्नवाङ्गल्मिन् देव स्वात्यर्गस्वामो विश्वविता सुमेधा स्वाहा धेयस्यैकृत्यो भागस्य रसा भोज आक्रममाणाय धे श्रेच्छा कथमायोशम् मोर्था चित्रयायजेत पुशकामयि मयि चित्राय त्वारस्यां विश्वं प्रजाय नित्राय एवं मत्वाश्चित्रया पशका भो प्रजया सौम्येन तथा एव हितं नष्टा रूपाणि विगतस्वतों मिथुनं दैव्यमेवास्मि मिथुनं पशवसप्तारण्या सप्तशन्दुपयस्यावर्ध्या अथैता आहुते ज्यो चेदेवी देवा पुष्टिप्रदयस्यैवधति पृष्यति प्रजया पशुभिरथो याहुते ज्योहोदिप्रतिष्ठित्य मारुतमसि मरुतामोजोपान्धारायतमरुदर्शेन मायुनम् मनोजव सन्दृशनगो सुवृत्तिम् येन शब्दवक्रमवसुष्टमेति तदश्विनापरिधत्तग्रस्वस्ति रो वातो वर्षन् जन्मरावृत्स्वाहा वातावद्वर्षन् नग्ररावृत्स्वाहास्तनयनवर्षन् भीमरावृत्स्वाहा न जन्यवस्तोद्यम् नित्युद्वर्षन् केशरावृत्स्वाहातिरात्रम् वर्षम् गोर्त्यरावृत्स्वाहा भोहायवृषादि श्रुतरावृत्स्वाहा तव निवर्षम् विराडावृत्स्वाहा ृन्दते शुभेनाः मित्रभृताक्षत्रभृतसुराष्ट्रा एवमावता कृष्णाश्वस्य सन्धानमसि वृष्टि त्वापनह्यामि देवावसव्याग्ने सोमसूर्या देवाश्रर्मण्यामित्रावरुणार्यमन् देवास्वीदयपानबादासे मन् प्रत्यन्यादन्तरिक्षास्तवृष्ट्यावतान्दन्ति वृष्टयः सोऽयम् वृष्ट्यम् वर्ष यथा परीक्षणः ृष्टन् दिवस्य प्रथमजापः देवादिविभागायन्तो मारुतामो जयति कृष्णं वादत्कृष्णदोषम्परिधत्त एतद्वैरुष्ट्यैरूप स्वरूप एव भोता वर्त्यन्यम् वर्जयति रमयस्य पश्चाद्वातम् अष्टो जुहोदस्रोवैदिशायुध एव वृष्ट्यंसम् ृच्छा वै कृष्णा जने संयोमानानागोषानि परावृदन्ते कर्त्युरा अभवन् देशापदत्तानि करीराण्यभवन् सौम्यानि वै करीराणि सौम्या खुर्वा वृष्टिं च वैर्यत्करीराणि भवन्ति सौम्यवृन्दे पुरुषा संयोम्बा एषे नायन्मध्व एवौषधेभ्य वरुषत्यतोषधे वृष्टिम्य यदि मां दा वा इति संयोजनाच्यो यथा वेहेत्ययमेवैनाभेये ीत्याहव स्वापृषा वर्तिन्यः कृष्णैव खल्वे भोक्त्वा वर्षति रूपेणैवैनसमर्थयति पुरुषस्यावृद्धि देवावसं या देवाश्रर्मण्या देवा सेदयैत्यावत् नासि देवताभिरे हविर्निर्वभेदो रात्रे वित्रावरुणावहो रात्राभ्यां वर्त्यज्ञा वर्ष दिनक्कम् वाहि दिवारुष मित्रावरुणा वेदस्वेन वर्षे ृष्टा नयन्ति यदास्मिर्तते फलवैत्वा देवतावृष्ट्या ईशदेता एवधेनापदावस्मै पर्यन्यं वर्षयन्त्युता वर्षिष्य वर्षत्येव सृता वृष्ट्यन्ति वः मुत्रम् गृणेत्यावास्मै लोकाभीष्टा भवन्ति सर्वाणि छन्द्याकस्यैतस्यामिष्ट्या मनोज्ञानीत्या सर्वाणि छन्दाकस्य वरुन्धे गायत्रैका एषा चत्वारि चतुष्वाद एव ते पश्यो यथा पुरोडाचे पुरोडाचो देव न्द्रिय एव वीर्य प्रदिष्टाभि दिनान्दमयत्र ज्ञेत्रीदेवादिनात्रीत्या परिधायज्ञायत्रैरादवी माय कामाय प्रयुज्यो हि कामे प्रयुज्येताभिज्ञायत्रैराधवी सर्वेणैवेन यज्ञेनाभिरति स्म एव सर्वेणैव यज्ञेन यज तेन सहस्रेदातमेवेन ददात्येदैवम्बा एष पशूनां सहस्रेण पशुका यस्मा देवयोने, त्रीधादवीयेन पशुकामो युजते यस्मादेवयो प्रजापतिपशोजत उपरको सहस्रोपादेशते सर्वेषादवीय सर्वेणैव यज्ञेन युजतेन देवतावृष्टिद्वादशकपाल पुराणाश भवति ते त्रयश्चतुष्कपालास्त्रिश्य मृद्धत्वा यत्र यः प्रौढाश भवन्त्येव लोकाय मध्य एतद्वा अन्तरिक्षस्य रूपगो समृद्धि सर्वेषामभिगमयन्नम्बट्कारघु हिरण्यं ददातिवावरुन्दे तार्प्यन्ददाति पशूनेवावृन्दे देवन्ददात्यावावरुन्धे ेतानेव सर्वानुवर्णान् वृन्दे ीन्द्रमाहरपि वृत्तस्येदत्यस्वाहेन्द्रवर्तस्य प्रवणमासीद्यैरासीत्सम्भव विष्णुश्रेदात्मानं धृथिव्यां तृतीय क्षेत्रीयन्भिः पृथिव्यान्द्री यमासीतेनैन्द्रौवज्रवदेच्छद्विष्णोऽस्ति तस्य ब्रवी नामे प्रहरस्ति वा इदं मयि वीर्यं तथ्ये प्रास्यामितस्मे प्राय छतत्प्रत्यगृह्णा दधामेष्णवे न्दये प्रदा स्वामी ति तस्मै प्रायच्छत्र कृत्य गृह्णात् धर्माय प्रायच्छत्र कृष्णप्रत्ययगृह्णा तस्मास्मिन् न्दधा त्वामेव प्रविशां प्रविशयमा इति प्रवे त्वामेवेन्द्रिय तव भोगाय त्वां प्रविशयमित्य प्रवे त्वं वृत्र प्राविशतु मनुष्यश्च प्रातृयो एवं वेदः निरीक्षसं तदस्मै प्रायच्छत्रिर्माधाय तत् विष्णवेद प्रायच्छत्तृष्णप्रत्यगृह्णा तस्मास्मिन् द्रियं दधात्मिति यत्कृपाय यच्छत्रिप्रत्यगृह्णात् तत्र जातो प्रायच्छत्तस्मादेन्द्रा इदङ्गीजदस्मेतत्प्रायच्छदृशस्सामानयजूंशसहस्रम् वा अस्मेतत्प्रायच्छत्तस्मात्सहस्रदक्षिणम् देवा वीरारण्यायमानादपि सन्दन्दाम् आभून् एषो भो प्रजायते राजन्यो यत्त्वा एषोऽभोभ्यजायेत वृत्रान् मृगस्य रेत्यं कामयेतराजन्यमनुभोभ्यजायेत वृत्रान् मृगश्च रेद्यतस्मादेतमीन्द्रा बृहस्पत्येन्द्रन्निर्ववेदैन्द्रवैराजन्य ब्रह्म बृहस्पति ब्रह्म देवै वृन्दां नों भलान् मुञ्चतिन्दामदक्षिणा साक्षादेवै नभो नवो भवति जायमानोन्नाङ्केतुलसमेत्यग्रे देवेभ्यो विददाध्यायम् चन्द्रमास्तिरतिदेभ्यमायुः यमादित्यायेक्षिनक्षिदयः पिबन्ति तेन नो राजा वरुणो बृहस्पति आप्यायेन्द्रभवनस्य गोपा अष्टेरुपसत्यो नमस्य यथा देवप्रति हाविश्वकोत्तस्वरिलमन्त्रोपक्षेरणाय महित्वा शूरनो नमो दुग्धायव धेनवः ईशानमस्य जगदस्वर्तृशमीशानमिन्द्रुषः स्वामिध्येहवामे स्वातावायस्य कारवः वृत्रेष्विन्द्रसत्त्वदिन्नदस्त्वा सर्वतः यत्या इन्द्रते शतकुशतम् भूमीरतस्योः न्दोयाभिदे ज्योतिषो दृत्यञ्जातवेशो सप्तत्वा हरितो हन्ति देवसूर्या स्वदिष्ये संविचक्षणा देवा शिखरन्देवानामुदगादनी गन्धीक्षु मित्रस्य वरुणस्याख्नेः प्रात्या वा पृथिवी अन्तरिक्षो सूर्य आत्मा जगदुषश्च विश्वे देवाहृतावृताम्बयः विश्वे देवाश्रे मगोहवं मे ये अन्तरिक्षेयौ पत्यविष्ठा ते अग्निजिप्पात्राय त्वम् द्वितीयकाण्डे चतुर्थः प्रश्नः समाप्तः